ततोऽस्त्रुम् वारुणम् सम्यक् योजया मास कौरवः तेनाश्वांश्चतुरो भूपते अस्त्रैरस्त्राणि संवार्य शाल्वराजस्य कौरवः भीष्मोऽ नृपतिशार्दूलन्यवधीत्तस्य सारथिम् अस्त्रेण चास्याथेन्द्रेणन्यवधीत्तुरगोत्तमान् कन्या हेतोर्नर श्रेष्ठ भीष्म जित्वा विसर्जयामास जीवन्तम् नृपसत्तमम् ततः प्रययौ भर्तर्षभ स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा राजानो ये च तत्रासन् स्वयंवरदिदृक्षवः स्वान्येव राष्ट्राणि जग्मः परपुरञ्जया एवं विजित्य ताः कन्या भीष्मः प्रहरताम्बरः प्रययोहास्ति न यत्र राजा सकौरवः विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमां यथापि कौरव्यः शान्तनुर्नृपसत्तमः सोचिरेणैव कालेन अन्यक्रामन्नराधिप वनानिसरितश्चैव शैलांश्च विविधान् द्रुमान् अक्षतःक्षपयत्त्वारीन् सङ्ख्ये सङ्ख्येयविक्रमः आनयामास काश्यस्य सुताः सागरगासुतः स्नुषा इव सधर्मात्मा भगिनीरवचानुजाः यथा दुहितरश्चैव परिगृह्यययौ कुरून् आनिन्ये एवम् धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे सत्यवत्यासहमिथः कृत्वा निश्चयमात्मवान् विवाहम् कारयिष्यन्तम् भीष्मम् काशिपतेः सुता ज्येष्ठा तासामिदम् वाक्यमप्रवीद्धसती तदा मया सौभपतिः पूर्वम् मनसा हि वृतः पतिः तेन चास्मि वृता पूर्वमेष कामश्च मे मया वरयितव्योऽभूच्छाल्वस्तस्मिन् स्वयंवरे एतद्विज्ञाय धर्मज्ञ बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा तयोः पाणिगृहीत्वा तु वनदर्पितः विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ते चापि बृहतीष्यामे नीलकुञ्चितमूर्धजे रक्ततुङ्गनकोपेते पीनश्रोणिपयोधरे आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते विचित्रवीर्यम् कल्याण्यो पूजयामासतुः शुभे स देवतुल्यपराक्रमः सर्वासामेव नारीणाम् चित्तप्रमथनोरहः ताभ्यां सह सहरन पृथिवीपतिचिवीर्यस्तरुणो यक्षण सृह्यत सुहृदना सह चिक जगामास्तम कौरव्यो यम साधनम धर्मात्मा सतुगाे यिताशोकपरायण प्रेतकारिया सर्वा त्यगकार यो विचिवीर्यवत मे स्थित सहि भीष् सर्वश्च कुरुपुंगव इति श्री महाभारते, महाभार आदिपर्वि संभवपर्वि द्व्यधिक परे दतमोध्याय